अथ षोडशोऽध्यायः शौनक उवाच सौते त्वम् कथय स्वे माम् विस्तरेण कथाम् पुनः आस्ति कवेः साधोः शुश्रूषा परमाहिनः मधुरम् कथ्यते सौम्या श्लक्ष्णाक्षरपदम् त्वया प्रियामहेभृशं तात पिते वेदं प्रभाषसे अस्मच्छुश्रोषणे नित्यम् पिता हि निरतस्तव आचष्टैतद्यथाख्यानम् पिता ते त्वम् तथा वद सौतिरुवाच आयुष्मन्निदमाख्यानम् आस्तिकम् कथयामि ते यथाश्रुतम् सकाशाद्वै पितुर्मया पुरा देवयुगे ब्रह्मान् प्रजापतिसुते शुभे आस्ताम्भगिन्यौ रूपेणा, समुपेतेऽद्भुतेनघ ते, ते भार्ये कश्यपस्यास्ताम् कद्रुश्च विनता च प्रादात्ताभ्याम् वरम् प्रीतः प्रजापतिसमः पतिः कश्यपो धर्मपत्नीभ्यां मुदा परमयायुतः वरातिसर्गं श्रुत्वैवं कश्यपादुत्तमं च हर्षादप्रतिमां प्रीतिं प्रापतुः वव्रे कद्रोः सुतान्नागान् सहस्रं तुल्यवर्चसः द्वौ पुत्रौ विनता भद्रोपुत्राधिकौ बले तेजसा वपुषा चैव विक्रमेणाधिकौच तौ भर्तावरं प्रादादत्यर्थं पृत्रमीप्सितम् एवमस्त्वितितं चाह कश्यपं विनतातदा, तदा यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ कद्रोश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसां धार्यौ प्रयत्नतो गर्भावित्युक्त्वा समातपाः ते भार्येवरसन्तुष्टे कश्यपोवनमाविशत् सौतिरुवाच काले नमहता महता दशतीर्दश जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि ततः पञ्चशते काले कद्रोपुत्रा विनिःसृताः अण्डाभ्यां विनता मिथुनं न विदृश्यत ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी अण्डम् बिभेद विनत तत्र पुत्रमपश्यत पूर्वाधकाय सम्पन्नमितरेण प्रकाशत स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः योऽहमेवं कृतो मातस्त्वया लोभपरीतया शरीरेणा समग्रेण तस्माद्दासी भविष्यसि पञ्चवर्षशतान्यस्य यया विस्पर्धसे सः एष चत्वां सुते मातर्दासीत्वान्ोचयिष्यति यद्येनमपि मातस्त्वम् मामिवाण्डविभेदनात् न करिष्यस्यनङ्घम् वा व्यङ्गम् वापि तपस्विनम् प्रतिपालयितव्यस्ते जन्मकाले स्यीरया विशिष्टम् बालमीप्सन्त्या पञ्चवर्षशतात्परः एवंषप्त्वा ततः पुत्रो विनतामन्तरिक्षगः अरुणो दृश्यते ब्रह्मान् प्रभातसमये तदा आदित्यरथमध्यास्ते सारथ्यं समकल्पयत गरुडोऽपि यथा कालम् यज्ञे पन्नगभोजनः स जातमात्रोविनताम् परित्यज्यखमाविशत आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् विधात्रा भृगुशार्दूलक्षुधितः पतगेश्वरः इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पादीनामुत्पत्तौ षोडशोऽध्यायः